अभिश्रवणमन्त्रपाठः वेदादयः ॐ अग्निमीळे पुरोहितयज्ञस्य देवमृत्विजं होदारं रत्नधादमम् इषेत्वार्जेत्वा वायवस्थो वायवस्तदेवो वः सविदा प्रार्पय दुःश्रेष्ठतमाय कर्मणे अग्न आयाहि वीदये कृणानो हव्यदादये निहोता सत्सि बर्हिषी शन्नो देवीरभिष्टय आपो भवन्तु पीदये शय्योरभिस्रवन्तु नः पुरुषसूक्तम् सहस्रशीर्षा पुरुषः सहस्राक्षःसहस्रपाद स सभोमिं विश्वदो मृत्वा अत्यतिष्टद्दशाङ्गुलम् पुरुषये वेदगुं सर्वम् यद्भूतयच्च भव्यम् उदामृतत्वस्येशानः यदन्नेनाधिरोहदि यदा महिमा अदो ज्यायाग्विश्च पूरुषः पादोस्य पादोऽस्य विश्वभूतानि त्रिपादस्यामृदन्तिभि त्रिपादोर्ध्वौ दयिपुरुषः पादोऽ भवात्पुनः तदो विश्वं व्यक्रमद शाशनानशने अभि तस्माद्विराडजा यदा विराजोऽधिपूरुषः स ज्यादो अत्यरिच्यद पश्चाद्भूमि मधो पुरः यत्पुरुषेण देवा यज्ञमदन्वद वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्मः शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिधकृताः देवा यद्यज्ञं तन्वानाः अबध्नन् पुरुषम् पशुन् तय्यज्ञं बर्हिषि प्रौक्षन् तेन देवा अयजन्द साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहृदः सम्भृदं वृषदाघ्यं आरण्यान ग्राम्याश्चये सर्वहुदः आ ग्राम्याजाजि छंद जिरे तस्माद यजुस्त तस्माश्वा येके केो भयाद गावोह जज्ञे तस्माद तस्मा अजादा अजावयह यत्पुरुषं व्यदधुः कदि धाव्यकल्पयन् मुखं किमस्य कौ बहु कावूरूपादा ब्राह्मणोऽस्य मुखमासीद बाहूराजन्यकृतः ऊरो तदस्य यद्वैश्यः पद्भ्या गुंशूद्रोऽजायत चन्द्रमामनसोऽजातः चक्षु सूर्योऽजायत <च्छों सुर्यों> <जाया दा> मुखादिन्द्रश्चाग्निश्च <प्रानाद्वायरा जाया दा> प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्यां भूमिर्दिश्रोत्राद तथा लोकागुम् अकल्पयन् वेदाहमेदं पुरुषं महान्तम् आदित्यवर्णं तमसस्तुपारे सर्वाणि रूपाणि विचित्य धीरः कृत्वा कृत्वाभिवदन्यदास्ते दादा पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्चतस्रः तमेवं विद्वान् अमृत इह भवति नान्यपन्था अयनाय विद्यते यत्नेन यज्ञमय यत्ने जन्तदेवाः तानि धर्माणि प्रथमान्यासन् देशनाकम महिम स चंद यू साध्या सी दिवा उत्तरनाय संबोधपृथिव्य विश्वर्मण सवर्तताध्यद्रूपत्पुष सेग्रे वेदाहमेदं पुरुषं महान्दम् आदित्यवर्णं तमस तमेवं विद्वानमृद इह भवति नान्यः पन्था विद्यते यनाय प्रजापदिश्चरदि गर्भे अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति मरीचीनां पदमिच्छन्ति वेधसः यो देवेभ्य आदपदि यो पुरोहितः पूर्वो योदेवेभ्यो देवेभ्यो जातः न मो रुचाय देवा अग्रे तदब्रुवन्न यस्त्वैवं ब्राह्मणो विद्याद तेवा असन्वशे ह्रीश्च दमीश पत्ऊ अहोरात्रे रूपं नक्षत्रापम अश्विनौ व्यात इष्ट मनीषाण अमु सर्वं सर्व महा महानाराण सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवं विश्वं नारायणं देवमक्षरं परमं पदं विश्वदपरमान्त्यं विश्वं नारायणगुं हरिं विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति पदीं विश्वस्यात्मेश्वरघुं शाश्वदघुं शिवमच्युदम् नारायणं महात्मेयं विश्वात्मानं परायणं नारायणपरो ज्योतिरात्मा नारायणः परः नारायणपरं ब्रह्मतत्त्वं नारायणः परः नारायणपरोध्यादाध्यानं नारायणः परः यच्च किञ्चित् जगत् सर्वं दृश्यते ए श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थितः अनन्दमव्ययं कविगुं समुद्रयन्तं विश्वशम्भुवम् पद्मकोशप्रदिकाशगुं हृदयं चाप्यधो मुखम् अधो निष्ट्या विदस्त्यान्तेनाभ्यामुपरितिष्ठति ज्वालामालाकुलम्भादि विश्वस्यायतनं महद सन्ततगुं शिराभिस्तु लम्बत्याकोशसन्निभं तस्यान्धे सुषिरगं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितं तस्य मध्ये महानग्निर्विश्वार्चेर्विश्वतोमुखः सोग्रभुग्विभजन् तिष्ठन्नाहारमजरकविः तिर्यगूर्ध्वमदशायी रश्मयस्तस्य सन्ददा सन्तापयद्दिस्वं देहमापाददलमस्तकः तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थितः नीलतो यदमध्यस्थाद्विद्युल्लेखेव भास्वरा निवार शोकवत्तन्वीपीता भास्वत्यनुपमा तस्या शिखय मध्ये परमात्मा व्यवस्थितः स ब्रह्म स शिवः स कृतगुंसत्यं परं ब्रह्मपुरुषं कृष्णपिङ्गलम् उर्ध्वरदं विरूपाक्षं विश्वरूपाय वै नमो नमः नारायणाय वित्महे वासुदेवाय धीमहि तन्नो विष्णुप्रचोदयाद विष्णोर्नुकं वीर्याणि प्रवोचय्यः पार्थिवानि विमा मे रजागुंसि यो अस्कभायदुत्तरगुंसधस्थम् विचक्रमाणस्त्रेधोरुगायो विष्णोरराडमसि विष्णोः पृष्टमसि विष्णोस्न्यत्रेस्थो विष्णो स्यूरसि वैष्णवमसि विष्णवेत्वा रक्षोघ्नम् कृणुष्वपाजप्रसिति न पृथ्वी याहि राजेवामवागुम् इभेन तृष्वीमनुप्रसिद्धिम् दृणानोस्तासि विध्यरक्षसस्तपिष्ठैः तव भ्रमास आशुयापतन्त्यनुस्पृशधृषदा शोशुचानः तपो विष्यग्ने जुह्वा पदङ्गा न सन्दिदो विसृजविश्वगुल्काः प्रदिस्पश्यो विसृजतुर्नितमो भव पायुर्विशो अस्या अदग्धः यो न दूरे अखशगुंसो यो अन्धग्न्ये मा गिष्टव्यधिराधर्षीद उदग्ने तिष्ठप्रत्यातनुष्वन्यमित्रागुम् ओषतात्तिक्महेते योनो नो समिधान समिधानचक्र नीचादं धक्ष्यतः सन्न शुष्कम् ऊर्ध्वो भवः प्रतिविद्याध्यस्मदा विष्कृनुष्व दैव्यान्यग्ने अवस्तिरा तनुहि यादुजूनां जामिमजामिं प्रमृणीहि शत्रून् सते जानादि सुमदिय विष्टय इवदे ब्रह्मणे गादुमैरद विश्वान्यस्मै सुदिना निरायो द्युम्नान्यर्यो विदुरो अभिद्यौद सदग्ने अस्तु सुभगसुधानुर्यस्त्व नित्यनः विषाय उक्तैः पिप्रीषदि स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सा अर्चामिते सुमधिं कोश्यर्वाक्सन्दे वाता जरदामि अङ्गीः स्वस्वास्त्वा सुरधा मर्जये मास्मे क्षत्राणि धारयेरनुद्यून् इहत्वा भूर्याचरे दुपत्मन् दोषावस्तर् दिदिवागं समनुद्यून् क्रीडन्तस्त्वा सुमनसः सपे माभिद्युम्न तस्ति वागुंसो जनानां यस्त्वा सश्व सु हिरण्यो अग्न उभयादिवसुमदारथेन तस्य त्रादा भवसि सखा यस्त आदित्य मानुष जुजोषध महोरुजामि बन्धुदा वचोभिस्तन्मा विदुर्गोदमादन्वियाय त्वन्नो अस्य वचिकिद्धि होदर्यविष्टसुक्रदोदमूनाः अस्वप्नजस्तरणसु सेव अदन्द्रासो वृका अश्रमिष्ठाः ते पायवः सध्रियञ्जो निशद्याग्ने तव नः पान्द्वमूर ये पायवो मामधेयं ते अग्ने पश्यन्तो अन्धं धुरिदादरक्षन् रक्षतान् सुहृदो विश्ववेदादिप्सन्दयिद्रिपवो नाहदेभुः त्वया वयगुम् स धन्यस्त्वोदास्तव प्रणीत्यस्याम वाजान उभा शगुं सासुदय सत्यतादेनुष्ठुया कृणु ह्यह्रयाण अयाते अग्ने समेधा शस्यमानं गृहाय दशासो रक्षसः पाह्यस्मान् ध्रुहो निदो मित्रमहो अवद्याद रक्षोहनं वाजिन माजिकर्मि मित्रं प्रधिष्ठमुपयामि शर्म शिशानो अग्निक्रदुभि समिद्धः स नो दिवा सरिषः पादुन विद्यो दिशा बृहदा भात्याग्निराविर्विश्वानि कृणुते महित्वा प्रादेविर्माया सहदे दुरे वा शिशिदे शृङ्गे रक्षसे विनीक्षे उदस्वनासो दिवि क्षन्त्वाग्नेस्तिक्मायुधा रक्षसे हन्त वा मदे चिदस्य प्ररुजन्ति भाम न वरन्दे परिबाधो अदेवीः रक्षोहणो वलगहनः रक्षोहणो वलगहनो वैष्णवान् खनामिदमहं तं वलगमुद्वपामि यं समानो यमः समानो दमेन मधरं करोमि यो न समानो यो स मानो राधीयदि गायत्रेण चन्दसावबाढो वलघ भद्रं तन्नौ सह विराडसि सम्राडसि भ्राद्रव्यः स्वराडस्यभिमादिहा विश्वाराडसि विश्वासां नाष्ट्राणागुं हन्ता रक्षोहणो वलगहन प्रोक्षामि वैष्णवान् रक्षोहणो वल गहनो वनयामि वैष्णवान् यवोसि यवोऽसि यवयास्मद्दोषो यवयारादिरक्षोहणो वलगहनो वस्तृणामि वैष्णवान् रक्षोहणो वलगहनोभिजुहोमि वैष्णवान् रक्षोहणौ उपदधामि वैष्णवी रक्षोहणौ वलगहनौ पर्युहामि वैष्णवी रक्षोहणौ वलगहनौ परिस्कृणामि वैष्णवी रक्षोहणौ वलगहनौ वैष्णवी बृहन्नसि बृहद्ग्रवा ब्रिखत बृहदीमिन्द्राय वाजं वद सोमाय पितृमते सोमाय पितृमदे पुरोडाशगं षट्कपालं निर्वपदि पितृभ्यो बर्हि षद्भ्यो धानाः पितृभ्योऽग्निष्वातेभ्यो भिवान्यायै ये जत्वा मन्वे तत्ते पिदामः प्रपिदामः ये जत्वामन्वत्रपि धरो यथाभागं मन्दद्वगं सुसन्दृश्यं त्वा वयं मही प्रनूनं पूर्णबन्धुरस्तु दोयासि वशागुम् अनु योजान्विन्द्रते हरी अक्षन्नमी मदन्दह्यवप्रिया अधूषदा अस्तोषदस्वभावो विप्रा नविष्टया मदी यो जन्विन्द्रते हरी अक्षन् पिदरोमि मदन्द पिदरोति तृपन्द पिदरोमि मृजन्द पितरः परेदपि दरसोम्या गम्भीरैपदिभिः पूर्वैः अथापिधृन् सुविदत्रागुम् अपि दयमेन ये सधमादं मदन्ति मनोन्वा कुवामहे सराशगुंसेन स्तोमेन पितॄणां च मन्मभिः न येदु मनः पुनः क्रत्वे दक्षाय जीवसे जोक् च सूर्यं दृश्ये पुनर्न पिदरो मनो ददातु दैवो यदन्तरिक्षं पृथिवीमुदद्यां यन्मादरं पितरं वा जिहिगुंसिमा अग्निर्मा तस्मादेन सो गारुकपत्य प्रमुञ्चद दुरिदायानि चक्रुमकरो मामनेन सम् उशन्तस्त्वा हवामः उशन्तः उशन्तस्त्वा हवामः उशन्तः समि धीमहि उशन्नुषद वः पिधृन् हविषे अत्तवे त्वगं सोमप्रचिकिदो मनीषा त्वगुं रजिष्ठमनुनेशि पन्थां तव प्रणीधिधरो नयिन्दो देवेषु रत्नमभजन्द धीराः त्वया हि न पिदर सोम भुवे कर्माणि चक्रुः पवमानधीराः वन्वन्नवाधपरिधिगुं रपोर्नो वीरेभिरश्वैर्मखवा भवानः त्वगुं सोम पितृभिसंविधानोऽनुद्यावापृथिवी आतदन्ध तस्मै दयिन्दो हविषविधेम वयग्स्यामपदयो रयीणाम् अग्निष्वार्थापितर एह गच्छद सद सद सदद सुप्रणीतयः अत्ताहवीगुं क्षिप्रयदानि बर्हिष्यधारयिगुं सर्ववीरं दधातना बर्हिषदपिदर उत्यर्वागिमा वो अव्याचकृमा जुषध्वम् त आगदा वसामेनाधास्मभ्यभुं शय्योररपो सुविदत्रागम् अवित्सि नपादं च विक्रमणं च विष्णोः बर्हिषदोये स्वधया सुदस्य भजन्त पित्वस्त इहा गमिष्ठाः उपहोदापि दरसोम्यसो बर्हिष्येषु निधिषु प्रियेषु आगमन्तु त इह श्रुवन्द्वधिब्रुवन्तु ते अवन्त्वस्मान् उदीरदामवर उत्परास उन्मध्यमापिदरसोम्यासः असो य ईयुरवृकारस्ते नो वन्तु पिदरो हवेषु इदं नमो अस्त ये पूर्वासो यसु ये पाथिवे रजस्यान शषत्ता ये वा नुनगुवृजनासु विक्षु अधयधानीधरपरासप्रसो अग्नो मुषाण शुची दयान दीधी मुक्तशा सह क्षमांदो अरुणीरपव्रदग्ने क्यवाह पितृन् यक्ष्य वृध प्रजहव्या वक्ष्यसी दितृभ्य आ स्वनयीडिद जाद वेद बाढ़व्या सुरभिद्यस्वया दिव्रयद अभी गुमशी मदलि कव्युर्यमो अंगिरोस्पतिविवा वृधानीच देवा वावृधुर्ये च देवान् स्वाहान्ये स्वधयान्ये मदन्ति इमां यमप्रस्तरमाहि सीदा गिरोभिपितृभिः संविधानः आत्त्वा मन्त्राकविशस्तावहन्त्वेन राजन् हविषामादयस्व अङ्गिरोभिरागहि यज्ञियेभिर्यमवैरूपैरिहमादयस्व विवस्वन्दगुम् भुवे यः पिदातेऽस्मिन् यज्ञे बर्हिष्यनिषद्य अङ्गिरसो न पिदरो नभग्वा अधर्वाणो भृगवसोम्या सह तेषा वयग सुमधयज्ञियानामपि भद्रे सौमनसे श्याम भक्षे हि माविश भक्षे हि माविश दीर्घायुत्वाय शन्तनुत्वाय रायस्पोषाय वर्चसे सुप्रजास्त्वाये हि वसो पुरोवसो प्रियो मे हृदोऽस्यश्विनोऽस्त्वा बाहुभ्यागं सख्यार्षं नृचक्ष सं देवसोम सुचक्षा अवख्यषं मन्त्राभिभूदिके दुर् यज्ञानां वा जुषाणा सोमस्य तृप्यदु मन्त्रा सर्वाच्य दिदिरना कदशीर्ष्णि वाग्जुषाणा सोमस्य तृप्यत्वेहि हि विश्वचर्षणे शम्भुर्मयो भुस्वस्ति मा हरिवर्णप्रचरक्रत्वे दक्षाय रायस्पोषाय सुवीरतायै राजन् विभी विभिषो मामे आर्दित्विषावधीः पृषणे सुष्मायायुषे वर्चसे वसुमत वसुमद्गणस्य सोमदेवते मदिविदः प्रादसवनस्य गायत्र छन्दस इन्द्रपीतस्य नराशगुंसपीतस्य पितृपीतस्य मधुमद उपहूदस्योपहूदो भक्षयामि रुद्रवद्गणस्य सोम देवते दे मदिविदो माभ्यन्दिनस्य सवनस्य पृष्ठुच्छन्दस इन्द्रपीतस्य नरशदुं सपीतस्य पितृपीतस्य मधुमद उप हूतस्योपहूतो भक्षयाम्यादित्यवद्गणस्य सोम देवते मदिविधस्तृतीयस्य सवनस्य जगति छन्दस इन्द्रपीतस्य नराशगुं सपीतस्य पितृपीतस्य मधुमद उपहूदस्योपहूदो भक्षयामि आप्यायस्व समे दुदे भवावाजस्य भवाजस्य सङ्गधे हिन्वमे गात्रा हरिवो गणान्मे मा वि तीतृषः शिवो मे वाङ् नाभिमती गाहा अपाम सोम सोममृता अधोमा दर्ष्मज्योतिरभिदामदेवान् किमस्मान् कृणवदराधि किमु धूर्तिरमृदमर्त्यस्य यन्म आत्मनो मिन्दा भूदग्निस्तत्पुनराहार्जादवेदा विचर्षणिः पुनरग्निश्चक्षुराधात्पुनरिन्द्रो बृहस्पतिः पुनर्मे अश्विना युवं चक्षुराधत्तमक्ष्योः युष्ट यजुष्वस्ते देव सोमस्तुदस्तोमस्य शक्रुतोखतस्य हरिवद इन्द्रपीदस्य मधुमद भक्षयामि आपूर्यास्ता मापूरयदत् प्रजया च धनेन च तदये जत्वा मन्वे पिदामः प्रपिदामः ये जत्वामन्वत्रपिधरो यथाभागमन्ध्वं नमो वः पिदरो रसाय नमो वः जीवाय नमो पिदरस्वधायै नमो वह्पिदरो मन्यवे नमो वह्पिदरो घोराय पिदरो नमो वो यदस्मिन् लोगेस्त युष्माग्विस्तेनु यस्मिन् लोगे मां ते नु यदस्मिन् लोगेस्त यूयं तेषां वसिष्ठा भूयास्त येऽस्मिन् लोकेऽहं तेषां वसिष्ठो भूयासं प्रजापदेन त्वदेतान्यो विश्वा जादानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयगृश्यामपदयो रयीणाम् देवकृतस्यैनसो वयजनमसि मनुष्यकृतस्यैनसो वयजनमसि पितृकृदस्यैनसो वयजनमस्याप्सु धौतस्य सोमदेवते नृभिः सुदस्येष्ट यजुःशस्तुतस्तोमस्य शस्तोक्तस्य यो भक्षो अश्वसनिर्यो गोसनिस्तस्य ते पिदृभिर्भक्षं कृतस्योपहूदस्योपहूदो भक्षयामि ध्रुवासि धरुणा धुवासी धरुणास्त्रुद विश्व सुधार मुद्र उद्वधन सुपर्ण व्यधमा पृथिवी दृगुह प्रजापदस्ता सा पृथिव्या पृष्ठे व्यचस्वधी प्रथस्वधी प्रथोसी पृथिवसी भूरसी भूमिरस्यदि तिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री पृथिवीं यच्च पृथिवीं दृगुंह पृथिवीं माहि गुंसे विश्वस्मै प्राणाय पानाय व्यानायो दानाय प्रदिष्ठायै चजित्रायाग्निस्त्वाभिपादुमस्या स्वस्त्या छर्दिषा सन्दमेन तया देवतया गिरस्वध्रुवासीद काण्डात्काण्डात् प्ररोहन्ती परुष परुष परी येवानो दुर्वे प्रतनु सहस्रेण शतेन च या सदेन प्रदनोषि सहस्रेण विरोहसि तस्यास्ते देवीष्टगे विधे महविषा वयम् अषाढासि सहमाना सह स्वा राधिः सह स्वा राधि सहस्व पृतन्यतः सहस्रवीर्यासि स माजिन्व मधुवादाहृतायदे मधुक्षरन्दिन्धवः मध्वीर्नः सन्तोषधीः मधुनक्रमुदोषसि मधुमत्पार्थिवगुं रजः मधु द्यौरस्तु नः मधुमान्नो वनस्पतिर् मधुमागम् अस्तु सूर्यः माध्वीर्गावो भवन्तु नः महीद्यौ पृथिवीचन इमं यज्ञं मिमिक्षदां पिपृतां नो भरीमभिः तद्विष्णो ओ परमं पदगुं सदा पश्यन्ति सूरयः दिविव चक्षुरातदं ध्रुवासि पृथिवी सह स्वपृदन्यदः स्यूदा देवेभिरमृते नागाः यास्ते अग्ने सूर्ये रुजा सूर्येरुज उद्यतो दिवमातन्वन्दिरश्मिभिः ताभि सर्वाभिरुचे जनाय न स्कृधि या देवा सूर्ये रुचो गोष्वश्वेषु या रुचः इन्द्रा अग्निताभिसर्वाभिरुजन्नो धत्त बृहस्पदे वीराट् ज्योतिराधारयत् सम्राट् अग्ने युक्ष्वाहि तवाश्वासो देवसाधवः अरं वहन्त्याश्रवः युक्ष्वाहि देवहोदमागुम् अश्वागुम् अग्नेरधिरिव निहोदा पूर्व्यसदः द्रप्सश्चस्कन्धपृथिवी मनुद्यामिमं च योनिमनु यश्च पूर्वः तृतीयं योनिमनुसञ्जरन्तं द्रप्सं जुहोम्यनु सप्तहोत्राः ज्योदिदं विश्वस्य भुवनस्य वाजिनमग्नेर्वैश्वानरस्य च अग्नेर्ज्योतिष ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वाना रुचेत्वा रुचेत्वा समिश्रबन्दिसरिदो न धेनाः अन्तर्हृद मनसा पूयमानाः हृदस्य धारा अभि चाकषीमि हिरण्ययो वेदसो मध्य आसां तस्मिन् सुपर्णो भजन्नाते मधुदवताभ्य स देहर सप्त ती ए स्वधाम दुहाना अमृतस धारा अग्न उदधे याद इषु अदे यादयुर्युवाना याद मतया नो मृडतस नमस्त उपजीवंदो भूयास्मा दुध्र गह्य किमशिल व्यद येषुर्युवानामतया नो मृड तस्ते नमस्त उपजीवंदो भूयास्म पंचवा ये चितय उदधिरेव नाम प्रथमो दो द्रोद्वितीयो गह्यस्तृदीय किगुं शिलश्च दुर्धो वन्यपञ्चमस्तेभ्यो यदाहुदीर्न जुहुया दध्वर्युं च यजमानं च प्रदहेयुर्यदेदा आहुधिर्जुहोधि भागधेये नैव नाञ्चमयदि नार्तिमार्चत्यध्वर्युर्न यजमानो ना नयजमानो आसन् न सोः प्राणोक्ष्योश्चक्षुकर्णयोः श्रोत्रं भाहुवोर्बल मुरु वो रोजारिष्टा विश्वान्यङ्गानि तनूस्तनु वा मे सह नमस्ते अस्तु मामा हिगुंसिरपवा यदस्मात् प्राणाक्रामन्ति योऽग्निं चिन्वन्नधिक्रामदि वाङ्म आसन्नसो प्राण इत्याह प्राणानेवात्मन्धत्ते यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवना विवेश तस्मै रुद्राय नमो अस्त्वा हुदिभागा वा अन्ये रुद्राकविर्भाग अन्ये शदरुद्रीयगुं हुत्वा गावीधुगं चरुमेधेन यजुषा चरमायामिष्टकायां निदध्याद् भागधेयेनै वैनगुं शमयदि तस्य त्वयि सद रुद्रियगुं हुदमित्याहो यस्यै यदि वसवस्त्वा रुद्रै पुरस्तात् पान्दु पितरस्त्वा यमराजानपिदृभिर्दक्षिणधः पान्त्वा दित्यास्त्वा विश्वैर्देवैः पश्चात् पान्तु द्युदानस्त्वा मारुदो मरुद्भिरुत्तरदः पादु देवास्त्वेन्द्रज्येष्ठा वरुणराजानो दस्ता चो परिष्ठा च पान्तु न वा पूदो न मेध्यो न प्रोक्षिदो यदेन मदप्राचीनं प्रोक्षधि यत्सञ्चितमाज्येन प्रोक्षति तेन पूतस्तेन मेध्यस्तेन प्रोक्षितः शिरो वा यदद्यस्य शिरो वा यदद्यज्ञस्य यद्धव्यधानं प्राण उपर वा हविर्धाने पायन्ते तस्मा चीर्षन्प्राणा अधस्तात् पायन्ते तस्मादधस्ताीर्ष्णः प्राण रक्षोहणो वलगहनो वैष्णवान्खनामीत्याह वैष्णवाहिदेवतयो पर वा असुरा वैनिर्यन्तो देवानां प्राणेषु वलगान्यखनन् तान् बाहुमात्रेऽन्वविन्दन्तस्मात् बाहुमात्राखायन्त इदमकं तं वल्गमुद्वपामि यन्नः समानो यमः समानो निजकानेत्याकद्वौ वावपुरुषौ यश्चैव समानो यश्चासमानो यमेवास्मैतौ वलगं निकनतस्तमेवोद्वपदि सन्धृणति तस्मात् सन्धृन्ना अन्तरधप्राणा न सम्भिनति तस्माद सम्भिन्ना व न यदि तस्मादार्द्रा अन्तरधप्राणा यव मदी रवनयत्योर्ग्वै यवप्राणा उपर वा दधादि बर्हि रवस्तृणादि तस्माल्लो मशा अन्तरतः प्राणा आज्येन व्याकारयदि ते जो वा आज्यं प्राणा उपर प्राणेष्वेवजो दधादि हनु वा येते यज्ञस्य यदधिश्रवणेन सन्तृणत्यसन्तृह्णे हि हनू अधो खलु दीर्घसोमे सन्तृध्ये धृत्यै शिरो यज्ञस्य यद्धविर्धानं प्राणा उपरवाहनु अधिशवणे जिह्वाचर्मग्रवाणो दन्दामुखमासवनीयो नासिकोत्तरवेदि रुदरगुंसदो यदा खलु वै जिह्वयादस्वधि आदत्यधमुखं गच्छति यदा मुखं गच्छत्यधोदरं गच्छति तस्माद्ध विर्धाने चर्मन्नदि ग्रावभिरभिश्रुत्याः वनीये हुत्वा प्रत्यञ्च परेत्य सदसि भक्षयन्ति यो वै विराजो यज्ञमुखे दोहं वेद दुह ये वै नामियं वै विराट् तस्यै त्वर्मो धोक्ति श्रवणेस्तन उपरव ग्रवाणो वत्स ऋत्विजो दुहन्ति सोमः पयो य एवं वेद दुहये वैना असवादित्योऽस्मिन् लोक असवादित्योऽस्मिन् लोक आसीतं देवापृष्ठ परिगृह्य सुवर्गलोकमगमयन् परैरवस्तात् पर्यगृह्णन् दिवाकीर्त्येन सुवर्गे लोके प्रत्यस्तापह्यन् परैः परस्ता पर्यगृह्णन् पृष्टैरूपावारोहन् स वा असा वादित्योमुष्मिन् लोके परैरुप यद परिगृहीतो यत्पृष्ठानि सुवर्गमेवतैर्लोकैयजमाना यन्ति परैरवस्तात् परिगृह्णन्ति दिवा कीर्त्येन सुवर्गे लोके प्रतितिष्ठन्ति परैः परस्तात्परिगृह्णन्ति पृष्ठैरूपा यत्परे परस्तान्नस्यु पराञ्च यदवस्तान निष्यरन यदवस्तादेयुरभिद दिवा कीर्त्यम पर सर्ग योक उभयध पजमा वै दिवा की गं संवत्सर पर सनो दो दिवा कीर्त्यं परः समानो भवन्ति येवो एवो भयदप्रदि तिष्ठन्ति पृष्ठं वै दिवा कीर्त्यं पार्श्वे परसमानोभिदो दिवा कीर्त्यं परसमानो भवन्ति तस्मादभिदपृष्ठं पार्श्वे भूयिष्ठा ग्रहा गृह्यन्ते भूयिष्ठगुंशस्य दे यज्ञस्यैव तन्मध्यदो ग्रन्थिं ग्रथ्नन्द्यविस्रगुंसाय सप्त गृह्यन्ते सप्त वै शीर्षण्या प्राणाप्राणानेव यजमानेषु दधति यत्पराचीनानि पृष्ठानि भवन्त्यमुमेव तैर्लोकमभ्यारोहन्ति यदि मल्लोकन्नप्रत्यवरोहेयुरुद् वा माध्ये यजमानाप्रव मियेरन यत् प्रतीचीनानि पृष्ठानि भवन्ति लोकं प्रत्यवरोहन्त्यधो अस्मिन्नेव लोके प्रति तिष्ठन्त्यनुन् मादायेन्द्रो वा आसीत् स प्रजापदिमुपाधावत ये प्रायच्चत्तमा षडिरात्रं प्रायच्छतमा हरतेना यज वै सप्रत्यतिष्ठदीये बहुयाजिनो प्रदिष्टितास्युस्त ये गविगुं षडिरात्र मासिरन्द्वादश इमे लोका असवादित्य ये गविगुंस यदा वन्तो वै देवलोकास्तेष्वेव यथा वादित्यो न प्रजापतिमुपाधावतस्मा ये तमेकविगुंशदिरात्रं प्रायच्छतमाहर तेन यजद तदो वै सो रोचत य एवं विद्वागुंस ये कविगुंशदिरात्रमासते विद्वा रोचन्त ेव विघुंशोरुचमेव गच्छन्त्यधो प्रदिष्टामेव प्रदिष्टाख्येव विगुंशोधिरावभिदो भवदो ब्रह्मवर्चसस्य परिगृहीत्यै सन्ततिर्वा ये ते सन्ततिर्वा येते ग्रहाः यत्परः सामानः विशो वाण्डिवा कीर्त्यं यथा चालायै पक्षसि येव गं संवत्सरस्य पक्षसि यदेतेन गृह्येरन् विषोचि संवत्सरस्य पक्षसी व्यवस्रगं सेयाताम् आर्तिमार्च्छेयुः यदेते गृह्यन्ते यथा शालायै पक्षसी मध्यमं वगुं शमभिसमायच्छदि येव गं संवत्सरस्य पक्षसी दिवाकीर्त्यमभिसन्दन्वन्ति नार्तिमार्च्छन्ति एकविगुंश्य महर्भवति शुक्राग्रा ग्रहा गृह्यन्ते प्रत्युत्तध्यैषयत्वाय सौर्य यदः पशुरा लभ्यते साउर्यो शौर्योतिग्राह्यो गृह्यते अहरेवरूपेण समर्धयन्ति अधो अह्न एवै शबलिर्ह्रियते सप्तैतदहरतिग्राह्या गृह्यन्ते सप्त वै शीर्षण्याः प्राणाः असवादित्य शिरः प्रजानां शीर्षन्नेव प्रजानां प्राणान् ददाति तस्मात् सत शीर्षन् प्राणाः इन्द्रो वृत्रगं हत्वा असुरान् पराभाव्य स इमाल्लोकानभ्यजयद तोको निजिद आसीद भूत्वाभ्य जयद तक भूतभ्यजयद गृह्य सुवर्ग से लोकयाजित प्रवा ये वैश्व वैश्वक गृह्णते आदित्यश्वो गृह्यते इयं वा अदितिः अस्यामेव प्रतिष्ठन्ति अन्योन्यो गृह्यते विश्वान्येवान्येन कर्माणि कुर्वाणा यन्ति अस्यामन्येन प्रतिष्ठन्ति तावा परार्धात् संवत्सरस्यान्योऽन्यो गृह्येते तावो भौ सह महाव्रते गृह्येते यज्ञस्यैवान्तं गत्वा लोकयो प्रतिष्ठन्ति अर्घ्यमुग्धं भवति अन्नाद्यस्यावरुध्यै एकविगुंश एष भवति एकविगुंश एष भवति एतेन वैदेवा एकविगुंसेन आदित्यमिद उत्तमङ्गुंसुवर्गल्लोगमारोहयन् स वा एष इद एकविगुंसः तस्य दशावस्तादहानि दश परस्ताद स वा एष विराज्युभयदप्रतिष्ठितः विराजिहिवा एष उभयधप्रतिष्ठितः तस्मादन्तरे मौ लोकौ सर्वेषु सुवर्गेषु लोकेष्वभितपन्नेधि देवा वा आदित्यस्य सुवर्गस्य लोकस्य परा चोदिपादादबिभयुः तं छन्दोभिरदृगुहन्धृत्यै देवा वा आदित्यस्य सुवर्गस्य लोकस्य अवाचोवपादादबिभयुः सं पञ्चभिरश्मिभिरुदवयन् तस्मदेकविघुंसेहन् पञ्चदिवाकीर्त्यानि क्रियन्ते रश्मयो वै दिह्वाकीर्त्यानि ये गायत्रे ते गायत्री सूत्तरयौ पवमानयोः महादिवाकीर्त्यगुं हो दुःपृष्टं विकर्णं ब्रह्मसामं भासोऽघ्निष्टो मह अधैतानि पराणि परैर्वैदेवादित्यगुं सुवर्गल्लोकमपारयन् यदपारयन् तत्पराणां परत्वम् पारयन्त्येनं पराणि य एवं वेद अधैतानि स्पराणि स्परैर्वैदेवा आदित्यगंसुवर्गल्लोकमस्पारयन् यदस्पारयन् तस्पराणागस्परत्वम् स्मार यन्त्येनग्निस्पराणि य एवं वेद इन्द्रो वृत्रगुं हत्वा इन्द्रो वृत्रगुं हत्वा असुरान् पराभाव्य सोमावास्यां प्रत्यागच्छद ते पितरपूर्वेद्युरागच्छन् पितॄन् यज्ञो गच्छद तं देव पुनरयाचन्त तमेभ्यो न पुनरददुः ते ब्रुवन्वरं वृणामहै अधवः पुनर्दास्यामः अस्मभ्यमेव पूर्वेद्युक्रियात इति तमेभ्यः पुनरददुः तस्मात् पितृभ्यः पूर्वेभ्यु क्रियते यत् पितृभ्यः पूर्वेद्युकरोति पितृभ्य एव तद्यत्नं निष्क्रिय यजमानप्रदनुदे सोमाय पितृपीताय स्वधा नम इत्याह पिदुरेवाधि सोमपीधमवरुन्धे न हि पिता प्रमीह्य सोमपीध इति इन्द्रियं वै सोमपीधह इन्द्रियमेव सोम पीधमवरुन्धे तेनेन्द्रियेण द्वितीया जायामभ्यश्नुते ये दद्वै पुरा वाजश्रवसा विदामक्रन्न तस्माते द्वेद्वे द्वे जाये अभ्या अक्षद य एवं वेद अभिद्विदीया जाह्यामश्नुते अग्नये कव्यवाहनाह्यस्वधा नम इत्याह य एव पितॄणामग्निः तं प्रीणादि तिस्र आहुतिर्जुहोति त्रिर्निदधाति षट्सम्पद्यन्ते षड्वा ऋतवः ऋदूनेव प्रीणादि तूष्णीं मे क्षणमादधाति अस्ति वा हि षष्ट ऋतुर्न वा देवान् वै पितॄन् प्रीतान् मनुष्यापितरोनुप्रदे तिस्र आहुतीर्जुहोदि त्रिर्निदधाति षट् सम्पद्यन्ते षड्वा ऋतवः ऋतवः खलु वै देवाः पितरः ऋदूनेव देवान् पितॄन् प्रीणादि तान् प्रीतान् मनुष्याः पितरो नुप्रपिपदे सकृदाचिह्नं बर्हिर्भवति सहृदिव हि पितरः त्रिर्निदधादि तृतीये वा इदो लोके पितरः तानेव प्रीणादि पराङ्गा वर्तते ह्लीका पितरः ऊष्मणो व्यावृद उपास्ते उष्मधागाहि पितरः ब्रह्मवादिनो वदन्ति प्राश्यां न प्राश्यामिति यत्प्राज्ञीयाद जन्यमन्नमद्याद प्रमायुक स्याद यन्न प्राश्नीयाद अहविस्याद पितृभ्य आवृच्छ्येद अवख्रेयमेव तन्नेव प्राशिदं नेवाप्राशिदं वीरं वा वै वीरं वा ददधि दशां चिनत्ति हरणभागाहिपितरः पितृनेव निरवदयदे उत्तर आयुषिलोमच्छिन्दिद पितृणागुह्येदर्हि नेदीयः नमस्करोति नमस्कारो हि पितॄणाम् नमो वः पिदरो रसाय नमो वः पिदर शुष्माय नमो वः पिदरो जीवाय नमो वः पिदरस्वधायै नमो वः पिदरो मन्यवे नमो वः पिदरो खोराय पिदरो नमो वः ययेतस्मिन् लोके स्थ युष्मागुस्ते यस्मिन् लोके मातेनु ययेदस्मिन् लोके स्थ तेषां वसिष्ठा भूयास्थ यस्मिन् लोके अहं तेषां वसिष्ठो भूयास्मित्याह वसीष्ठ सवती यं विद्वान्तृभ्य कौति येष वै मनुष्याण यहाँ देवा इतरे यहाँ तेना पोके चरद्य कौति सर प्रमेदोः प्राजापत्ययर्च पुनरैति यज्ञो वै प्रजापतिः यज्ञेनैव सह पुनरैति न प्रमायूको भवति पितृलोके वा एतद्यजमानश्चरदि यत्पितृभ्यः स ईश्वर आर्तिमार्तोः प्रजापदिस्त्वा वैनं तद उन्नेतुमर्हदित्याहुः यत्प्रापत्ययर्च पुनरैति प्रजापदिरे वैनं तद उन्नयदि नार्तिमार्च्छदि यजमानः वैश्वदेवेन वैप्रजापतिः वैश्वदेवेन वैप्रजापदिः प्रजा असृजद ता वरुणः प्रकाशैर्वरुणपाशादमुञ्चद साकमेधै प्रत्यष्टापयद स्त्रियम्पकैरुद्रं निरवादयद पितृयज्ञेन सुवर्गल्लोकमगमयद यद्वैश्वदेवेन यजते प्रजा एव तद्यजमानसृजते ता वरुणप्रकाशैर्वरुणपाश्चान्मुञ्चति साकमेधैः प्रतिष्ठापयति त्र्यम्बकैरुद्रम् निरवदयते पितृयज्ञेन सुवर्गल्लोकं गमयति दक्षिणदप्राचीनावीदि निर्वपदि दक्षिणावृद्धि पितॄणाम् अनादृत्य उत्तरद उत्तरदयेवोपवीय निर्वपेद उभये देवाश्च पितरश्च्यन्ते ए अधो यदेव दक्षिणार्धधिश्रयदि तेन दक्षिणावृद सोमाय पितृमदे पुरोडाशगुं षट्कपालं निर्वपदि संवत्सरो वै सोम्मः संवत्सरमेव प्रीणादि पितृभ्यो बर्हिषद्भ्यो धानाः मा स वैपिधरो बर्हिषदः मास ने वीणादि यस्मिन् वा हृदौ पुरुषप्रमीयते सोऽस्यामुस्मिन् लोके भवति बहुरूपधाना भवन्ति अहो रात्राणामभिजित्यै पितृभ्यो अग्निस्वात्तेभ्यो मन्दम् अर्धमासा वै पितरोग्निस्वात्ताः अर्धमासानेव प्रीणादि अभिवान्या यै दुग्धे भवति हि पितृदेवत्यं दुहे यत्पूर्णं तन्मनुष्यानां उपर्यर्धो देवानां अर्ध पितॄणाम् अर्ध उपमन्थदि अर्धो हि पितॄणां एकयोपमन्थदि एका पितॄणां दक्षिणापमन्थदि दक्षिणावृद्धिपितॄणाम् अनारभ्योपमन्थदि तद्धिपितॄन् गच्छति इमां दिशं वेदिमुद्धन्ति उभये हि देवाश्च पितरश्चे च दुस्रकृतिर्भवति सर्वाह्यनुदिश्यः पितरः अखादा भवति खादा हि देवानां मध्यदो अग्निराधीयते अन्धतो हि देवानामाधीयते वर्षीया निध्म ये ध्माद्भव दिव्यावृत्यै परिश्रयति अन्तर्हितो हि पितृलोको मनुष्यलोकाद् यत्परुषिधिनं तद्देवानां यदन्तरा यत तन्मनुष्याणां यत्समूलं तत्पितॄणां समूलं, समूलं बर्हिर्भवदिव्यावृत्यै दक्षिणास्तृणादि दक्षिणावृद्धि पितॄणां त्रिः पर्येति तृतीये वा इदो लोके पितरः ताने प्रीणादि त्रिः पुनः षड्वा ऋतवः ऋदो नेव प्रीणाधि यत्प्रस्तरय्यजुषा गृह्णीयाद प्रमायुको यजमानस्याद यन यन्न गृह्णीयाद अनायतनस्याद तूष्णी मे वन्यस्येद न ना भवदि नानायतनह नानायतनः यत्रेन् परिधेन् परिदध्याद मृत्यो न यजमानं यन्न परिदध्याद रक्षागंसि यज्ञगं हन्योह द्यौ परिधि परिदधाति रक्षसामपहत्यै अधो मृत्योरेव यजमानमुत्सृजति यत् त्रीणि त्रीणि हविगृह्युदाहरेयुः त्रयस्त्रयेषागुं सागं प्रमीयेरन् ये कैकमनूचीनान्युदाहरन्ति ये कैकये वैषमन्वञ्च प्रमीयते कशिपुकशिपव्याय उपबर्हणमुपबर्हण्याय उप आञ्जनमाञ्जन्याय अभ्यञ्जनमभ्यञ्जन्याय यथा भागमे वैनान् प्रीणादि अग्नये देवेभ्यः अग्नये देवेभ्य पितृभ्यः समिध्यमानायानुब्रहीत्याह उभये हि देवाश्च पितरश्च्यन्ते एकमन्वाः एका, एका हि पितॄणां त्रिरन्वाः त्रिर्हि आकारा वाकार यदि यज्ञपरुश्वोरनन्तरित्यै नार्षेयं वृणीदे न होतारं यदार्षेयं वृणीध यद्धोतारं प्रमायुको यजमानः स्याद प्रमायुको होताः तस्मान्न वृणीधे यजमानस्य हो दुर्गोपीधाय अपबर्हिष प्रयाजान्यजति प्रजा वै बर्हि प्रजा एव मृत्योरुत्सृजति आज्यभागौ यजति यज्ञस्यैव चक्षुषी नान्तरेधि प्राचीना वीती सोमं यजति पितृदेवत्या हि येषा हुतिः पञ्चकृत्वो वद्यति पञ्चह्येदा देवताः द्वे पुरोनुवाक्ये याज्ञा देवता वषत्कारः तायेव प्रीणादि सन्ददमवद्यदि ऋतुनागं सन्दत्यै प्रवैभ्यः पूर्वया पुरोनुवाक्ययाः प्रणयदि द्वितीयया गमयदि याज्यया कृवा इदो लोके पितरः अह्नये पुरोनु वाक्ययानयदि रात्रियै द्वितीयया ये वैनान् याज्याय गमयदि दक्षिणदोवदाय उदङ्गक्रमदिव्यावृत्यै आ स्वधेत्याश्रावयदि अस्तु स्वधेदि प्रत्याश्रावयति स्वधा नम इति वर्षत्करोति स्वधाकारो हि पितॄणां सोममग्रे यजति सोमप्रयाजाहि पितरः सोमं पितृमन्तं यजति संवत्सरो वै सोमः पितृमान् संवत्सरमेव तद्यजति पिधृन् बर्हिषदो यजति ये वै यज्वानः ते पितरो बर्हिषदः तानेव तद्यजति पिधृन् अग्निष्वातान् यजति ये वा, वा अयज्वानो गृहमेधिनः ते पितरोऽग्निस्वात्थाः तानेव तद्यजति अग्निं कव्यवाहनं यजति य एव तमेव तद्यजति अधो यदाग्निग्स्विष्टकृधं यजति तान्दृगेव यदत्ते तदा ये जत्वा मन्विधि तिसृषुस्रक्वेषु निदधाति तस्मादा तृतीयाद पुरुषान्नामन गृह्णन्ति यदा वन्दो हीज्यन्ते अत्र पितरो यथाभागं मन्दध्वमित्याह उदञ्चो निष्क्रामन्ति यशा वै दिशमनु स्वामेव तद्दिशमनुनिष्क्रामन्ति आहवनीयमुपतिष्ठन्ते न्येवास्मै तध्नुवदे यत्सत्याहवनीये अधान्यत्र चरन्ति आदमित्योरूपतिष्ठन्ते अग्निमेवोपद्रष्टारं कृत्वा पिदृन्निरवदयन्ते अन्तं वा ये दे प्राणानां गच्छन्ति य आदमिदोरुपतिष्ठन्ते सुस्सन्दृशं त्वा वयमित्याह प्राणोवै वै प्राणमेवात्मन् दधते यो जान्विन्द्रते हरी इत्याह प्राणमेव पुनरयुक्त अक्षन्नमीमदन्तहीति गार्हपत्यमुपतिष्ठन्ते अक्षन्नमीमदन्तादत्वोपतिष्ठामः इति वा वै तदाः अमीमदन्तपितरसौम्या इत्यभिप्रपद्यन्ते अमीमदन्तपितरो धत्वाभिप्रपद्यामः इति वा वै तदाः अभः परिषिञ्चति मार्जयत्येवैनान् अधो तर्पयत्येव तृप्यधिप्रजया पशुभिः य एवं वेद अपबर्हिषावनूयाजौ यजति प्रजा वै बर्हिः प्रजा एव मृत्योरुत्सृजति चतुरप्रयाजान् यजति द्वावनूयाजौ षट्सम्पद्यन्ते षड्वा ऋतवः ऋदूनेव प्रीणादि न पत्न्यन्वास्थे न सय्या जयन्ति यत्पत्न्यन्वासीद यत्सं या जयेयुः प्रमायुका स्याद न सय्या जयन्ति पत्नी उशन्तस्त्वा हवामः उशन्तस्त्वा हवामः आनो अग्ने सुखेतुना त्वगुं सोममहे भगन् त्वगुं सोमप्रचिकितो मनीषा त्वया हिनः पितरः सोम पूर्वे त्वगुं सोम पितृभिः संविदानः बर्हिषदपिदर आहं पितृन् उपभूदापिदरोग्निष्वात्ताः पितरः अग्निष्वात्तानृदुमदोहवामहे नराशगुंसे सोमपि धय्य आशुह। तेनो अर्वन्तः सुख वा शन्नो भवन्तु च दुष्पदे ये अग्निष्वात्ता ये नग्निष्वात्ताः अगुंहो मुचप्पिधरसोम्या सह परे वरे मृतासो भवन्तः अधिब्रुवन्तु ते अवन्तु अस्मान् वाण्यायै दुग्धे जुषमाणा करम्भम् उदीराणा अवरे परे च अग्निष्वात्ता ऋदुभिः संविदानाः इन्द्रवन्दो हविरिदं जुषन्धां यदग्ने कव्यवाहनत्वमग्न जादवेदः जाधवेदः मादलीकव्यैः ये तादृपदेवत्रा जेहमानाः होत्रा वृद्धस्तोमतष्ठासो अर्कैः आग्नेयाहि सुविदत्रेभिरर्वाङ् सत्यैकव्यै पितृभिर्घर्मसद्भिः हव्यवाहमजरं पुरुप्रिह्यम् अग्निं हृदय नहविषासपर्यन् उपासदं कव्यवाहं पितृणां स न प्रजां वीरवधीगुं समृण्वतु तृणाचिकेदम् अयं वाव अयम् वाव यः पवदे सोऽग्नेर्नाचिकेतः स यत्प्राङ्पवदे तदस्य शिरः अध यद्दक्षिणा स दक्षिणः पक्षः अध यत्प्रत्यग तत्पुच्छं यदुदङ् स उत्तरपक्षः अध यत्संवादी तदस्य समञ्चनं च प्रसारणञ्च अधो सम्पदे वास्य सगंह वा अस्मै स यत्कामो यजदे यो अग्निं चिनुदे य वेद यो ह वा वेद आयतनवान् भवति गच्छति प्रतिष्ठाम् हिरण्यं वा अग्निर्नाचिकेदस्यायतनं प्रतिष्ठा य वेद आयतनवान् भवति गच्छति प्रतिष्ठां योः वा अग्निर्नाचिकेदस्य शरीरं वेद स शरीर यगल्लोक हिरण्यम व अग्नेनाचिके शीर यं वेद स शरीर यगल्लोक अधो यथक् उत्याद वम सतेजसा यशसा अस्मिघुश्च लोके मुष्मिघ्रश्च भाधि उरवो ह वैनामैदे लोकाः ये वरेणादित्यम् अध हैदे ये परेणादित्यम् अन्धवन्दगुंहवा जयति यो वरेणादित्यम् अध हैषो नन्दमपारमक्षय्यल्लोकञ्जयति यः परेणादित्यम् अनन्दगुंहवा अपारमक्षय्यल्लोकञ्जयदि योऽग्निन्ना जिगेदं चिनुदे य उचैनमेवं वेद अधो यथारथे पक्षसि पर्यावर्धमाने प्रत्यपेक्षदे येव महोरात्रे प्रत्यपेक्षते नास्याहोरात्रे लोकमाप्नुदः योऽग्निम्ना जिगेदं चिनुदे य उचै वेद उश्यन् ह कुशनः वै वाजश्रवस सर्ववेदसं दधौ तस्य नचिकेदा नाम पुत्र आस तगुंह कुमारगुंसन्तं दक्षिणा सुनीयमाना सुश्रद्धाविवेश सहोवाच तदकस्मै मां दास्यसि द्वितीयं तृतीयं तगुं कपरिद उवाच मृत्यवेत्वा ददामिति तगुं कस्मोद्धिदं वागभिवदधि गौतमकुमारमिति सहोवाच परेहि मृत्योर्गृहान् मृत्यवेयित्वादामिदि तं वै प्रवसन्तं गन्दासीदि कोवाच तस्य स्म तिस्रो रात्रीरनाश्वान् गृहे वसताद स यदि त्वा पृच्छेद कुमारकदिरात्रीरवात्सीरितिस्र इति प्रदिभ्रूदाद किं प्रथमागं रात्रिमाश्ना इति प्रजां त इति किं द्विदीयामिति पशोगस्त इति किं तृदीयामिति साधुकृत्यां त इति तं वै प्रवसन्तं जगाम तस्य हतिस्रो रात्रिरनाश्वान् गृह उपास तमागत्यपप्रच्छी रवात्सीरिति तिस्र इति प्रत्युवाच किं प्रथमागुं रात्रिमाश्ना इति प्रजान्त इति किं द्विदीयामिति पशोगुस्त इति किं तृतीयामिति साधुकृत्यां त इति नमस्ते अस्तु भगव इति होवाच वरं वृणीष्वेदि पितरमेव जीवन्नयानिधि द्वितीयं वृणीष्वेदी इष्ठापूर्तयोर्मेक्षिधिं ब्रूहिदि होवाच तस्मै खैदमग्निं न जिकेदमुवाच तदो वै तस्येष्ठापूर्ते न ना क्षीयेदे नास्येष्ठापूर्ते क्षीयेदे चिनुते य उचैनमेवं वेद तृतीयं पुनर्मृत्योर्मेऽपचिदं ब्रूहीति होवाच तस्मै फैदमग्निन्नाचिकेदमुवाच तदो वै सोऽपपुनर्मृत्युमजयद अपपुनर्मृत्युञ्जयदि योऽग्निन्नाचिकेदं चिनुदे य उचैनमेवं वेद प्रजापदेर्वै प्रजाकामस्तपोतप्यदा स हिरण्यमुदास्यद तदग्नौ प्रास्यद तदस्मै नाच्छदयद तद्वितीयं प्रास्यद तदस्मै नैवाच्छदयद तत्तृतीयं प्रास्यद तदस्मै नैवाच्छयद तदात्मनेव हृदयेग्नौ वैश्वानरे प्रास्यद तदस्मा तस्मा तस्माद्धिरण्यं कनिष्ठं धनानां भुञ्जत्प्रियतमं हृदयजगुंहि स तमेव नाविन्दद यस्मै तां दक्षिणा मनेष्यद तागस्वायैव हस्ताय दक्षिणायनयद तां प्रत्य गृह्णाद दक्षायत्वा दक्षिणां प्रदि गृह्णामीति सो दक्षदक्षिणां प्रदिगृह्य दक्षदेह प्रदिगृह्य य ये धस्म वै तद्विद्वागुंसो वाजश्रवः स गोतमाः अप्यनू देश्यां दक्षिणां प्रतिगृह्णन्ति उभयेन वयं दक्षिष्यामः एव दक्षिणां प्रतिगृह्येति ते दक्षन्तदक्षिणां प्रतिगृह्य दक्षदेहवैदक्षिणां प्रदिगृह्य य एवं वेद प्रधान्यं व्लीनादि तगुं हैदमेके पशुबन्ध तगुं हैदमेके पशुबन्ध येवोत्तरवेद्याञ्चिन्वदे उत्तरवेदिसंमिद येषोऽग्निरिति वदन्तः तन्न तथा कुर्यादयेदमग्निं कामेन व्यर्धयेद् स कामेन व्यरुधः आमेन व्यर्धयेद सौम्ये वा वैनमध्वरे चिन्विद यत्र वा भूयिष्टा आहुतयो कूयेरन् यदमत्निम् कामेन समर्धयदि स कामेन समृद्धः कामेन समृद्धयदि अध हैनं पुरर्षयः उत्तरवेद्यामेव सत्रिय मचिन्वद तदो वै के विन्तदये वप्रजाम प्रजाम् अभिस्वर्गल्लोकञ्जयति योग्निम्नाजिकेदं चिनुदे य उचैनमेवं वेद अथ हैनं वायुर्धिद्धिकामः यथान्युक्त मे वोपदधे ततो वैष येदा मृद्धिमार्ध्नोद या मेदं वायुवृद्धः येदा मृद्धिमृध्नो वि या मेदं वायुर्वृद्धः यो योऽग्निम्नाचिकेदं चिनुदे य उचैनमेवं वेद अधः इनं गो बलो वार्ष्णः पशुकामः पाङ्कुदमेवचिक्ये पञ्च पुरस्ताद पञ्च दक्षिणतः पञ्चपश्चाद पञ्चोत्तरतः एकां तदो ततो वैसहस्रं पशून् प्राप्नोद प्रसहस्रम् पशूनाप्नोदि योऽग्निं नाजिकेदं चिनुदे य उचैनमेवं वेद अधफैनं प्रजापदेर्जैष्ठ्यकामो यशस्कामप्रजननकामः त्रिवृतमेवचिक्ये सप्तपुरस्ताद तिस्रो दक्षिणतः सप्त पश्चाद तिस्र उत्तरदः एकां मध्ये तदो वैसप्रयस्यो स प्रयस्यो येदां प्रजादिं प्राजायद यामिदं प्रजा प्रजायन्ते त्रिवृद्वैज्यैष्ठ्यं मादापिता पुत्रः त्रिवृत्प्रजननम् उपस्थो यो निर्मध्यमा प्रयशो जैष्ठ्यमाप्नोति येतां प्रजातिं प्रजायदे यमिदं प्रजा प्रजायन्ते योऽग्निं नाचिकेदं चिनुदे य उचैनमेवं वेद अथ हैनमिन्द्रो जैष्ठ्यकामः ऊर्ध्वा एवोपदधे तदो वै सद्यैष्ठ्यमगच्छद जैष्ठ्यं गच्छति यो अग्निं न जिगेदञ्चिनुदे य उचैनमेवं वेद अध हैनमसवादित्यस्वर्गकमः प्राचीरेवोपदधे तदो वै सोऽभिस्वर्गल्लोकमजयद अभिस्वर्गल्लोकं जयदि योऽग्निम्नाजिकेदं चिनुदे य उचैनमेवं वेद स यदीच्छेद तेजस्वी यशस्वी ब्रह्मवर्चस्वी स्यामिधि प्राणा हो दुर्धृष्ण्यादुत्सर्पेद ये यं प्रागाद्यशस्वधि सामा प्रोदु तेजसा यशसा ब्रह्मवर्चस्य नेति तेजस्वेव यशस्वी ब्रह्मवर्चसी भवति अध यदि चेद् भूयिष्ठं मे नये युरिति दक्षिणासुनीयमानासु प्राच्ये हि प्राच्येहीदिप्राची जुषाणा व्यत्वाजस्य स्वाहेदिस्रुवेणोपहत्या हवनीये जुहुयाद भूयिष्ठमेवास्मै श्रद्दधदे भूयिष्ठा दक्षिणा नयन्ति पुरीश्रमुपधाय चेदे क्लृप्तिभिरभिमृश्य अग्निं प्रणीयोपसमाधाय चतस्रये दा आहुतीर्जुहोति त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपम् अग्नाविष्णो यदि वसोर्धारायाः अन्नपद इत्यन्नहोमः सतते अग्ने सीध सप्तिवा यीद प्रथमा मिष्टया लोकमिजयद अधोया यस्म लोगे देवता तासागुं सायुज्य गुंसलोकदा सा माप्नोधि यां द्वितीयामुपदधाति अन्तरिक्षलोकं तया भीजयधि अधो अन्तरिक्षलोके देवताः तासागुं सायुज्य गुंसलोकदा सा या तृतीया मुपदि अमु तया लोकमिजयधस्लोके दतातायुज्य गुम सलोकदा अधोया अमू ऋतरा अठादश येवामी उरवश्च वरीयागुंसश्च लोकाः तानेव ताभिरभिजयदि कामचारोहवा ह वा कामचारो अस्यो रुषु वरी यस्सु च लोकेषु भवति योऽग्निं नाचिकेदं चिनुदे य उचैनमेवं वेद संवत्सरो वा अग्नेर्नाचिकेतः तस्य वसन्तः शिरः ग्रीष्मो दक्षिणः वर्षा उत्तरः शरत्पुच्छम् मासा कर्मकाराः अहोरात्रे शतरुद्रीयम् पर्जन्योऽवसोऽर्धारा यथा वै पर्जन्यसुवृष्ठं वृष्ट्वा प्रजाभ्यसर्वान् कामान् सम्पूरयदि येव मे वसतस्य सर्वान् कामान् सम्पूरयदि योऽग्निम्नाचिकेदं चिनुते य उचैनमेवं वेद संवत्सरो वा अग्निर्नाचिकेतः तस्य वसन्तः शिरः ग्रीष्मो दक्षिणः पक्षः वरुषापुच्छं शरदुत्तरपक्षः हेमन्दो मध्यम् पूर्वपक्षाश्चितयः अपरपक्षाः पुरीशम् अहो रात्राणिष्टकाः यश वाव सोऽग्निरग्निमह्यः पुनर्नवः वा अग्निमयोः वै पुनर्नवो भूत्वा स्वर्गल्लोकमेधि आदित्यस्य सायुज्यं यो चिनुदे य वेदा। ऋचां प्राची ऋचां प्राचीमकदी दिगुच्यते दक्षिणामाकुर्यजुषामपाराम् अधर्वणामङ्गिरः सम्प्रतीची साम्नामुदीचिमकी दिगुच्यदे ऋग्भिपूर्वाह्ने दिवि देव ईयदे यजुर्वेदे तिष्ठति मध्ये अह्नः सा मेदेनास्तमये महीयदे वेदैरशोऽन्यस्त्रिभिरेधि सूर्यः ऋग्भ्यो जादागं सर्वशो मूर्तिमाहुः सर्वगदेजोषीहैव शश्वत सर्वं तेजसामरूप्यगुं हशश्वद सर्वगुं सामवेदो ब्राह्मणानां प्रसूतिः पूर्वे पूर्वेभ्यो वचये ददुजुः आदर्शमग्निं चिन्वानाः पूर्वे विश्वसृजो मृताः शतं वर्षसहस्राणि दीक्षितः सत्रमास्त तप आसीत् गृहपदिः ब्रह्म ब्रह्मा भवत् स्वयं सत्यगुंहोतैषामासीद यद्विश्वसृज आसद अमृतमेभ्य उदगायद सहस्रं परिवत्सरान भोदग्गुं ह प्रस्तोतैषामासीद भविष्यत्प्रति प्रदिचाहरद प्राणो अध्वर्युरभवद यदगुं सर्वगं शिष्याः सदाम् अपानो विद्वानावृदः प्रदि प्रादिष्ठदध्वरे आर्तव उपगातरः सदस्याऋदवो भवन् अर्धमासाश्च मासाश्च चमसाध्वर्यवो भवन् अशगुं सद्ब्रह्मणस्तेजः अच्छा वा को भवद्यशः हृदमेषां प्रशास्तासीद यद्विश्वसृज आसद उर्ग्राजानमुदवहद ध्रुवगोपस्सहो भवद ओजोभ्यष्टग्रावर्णः यद्विश्वसृज आ सदा अपचिदि पौत्रीया मयजद नेष्ठ्रिया मयज त्विषीः अग्निध्राद्विदुषी सत्यं श्रद्धा हैवा यजत् इरापत्नी विश्वसृजाम् आूदिर नढ़ युत्म गुं हक्षुच्य उग्रे तृष्णा चावदा मुभे वागेश सुब्रमण्यासीद छो योग तन्वानाह तन्वाह सगस्ताश अहोरात्रे पशुपाल्य मुहूर्ताः प्रेष्या अभवना मृत्युस्तदभवद्धादा शमिदोऽग्रो विशाम्पदिः विश्वसृजः प्रथमासत्रमासद सहस्रसमं प्रसृतेनयन्तः तदोहजज्ञे भुवनस्य गोपाः इरन्मयशकुनिर्ब्रह्मनाम येन सूर्यस्तपदितेजसेद्धः पिता पुत्रेण पितृमान् योनि योनौ नावेदविन्मनुदेदं बृहन्तं सर्वानुभुमात्मानघुं सम्परा ये एष महिमा ब्राह्मणस्य न कर्मण वर्धते नो कनियान, कनीयान तदवीत विद्वा न कर्मण लिप्य दे पापक पंच पंच शत स्त्री वृतसंवत्सरा पंच पंचाशदशा पंचा पंचा पंचा पंच पंच शत सदशा पञ्चपञ्चाशद एकविगुंसाः विश्वसृजागुं सहस्रसंवत्सरं यतेन वै विश्वसृज इदं विश्वमसृजन्त यद्विश्वमसृजन्त तस्माद् विश्वसृजः विश्वमेणाननु ब्रह्मणः सायुज्यगं सलोकता सा आय्यन्ति ये दा सामेव देवतानागुं सायुज्यं साष्टितागुं समानलोकता आय्यन्ति ये ददुपयन्ति ये हरिः ॐ अभिश्रवणा समाप्तः